हरि ओम् श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे षडधिकशततमः सर्गः रावणस्य रथम् श्रीरामेण मातुले प्रबोधनम् रावणपराजयेषु श्रीरामविजयस्य च सूचकानां शकुनानां वर्णनम् स्वारथी स दृष्टे परसैन्यप्रदर्शनम् गन्धर्व नगराकारम् समुश्रीतः पताम् युक्तं परमसम्पन्नै वाजिभिः हेम मालिभिः युद्ध प्रकरणे पूर्णम् पताक् ध्वज मालिनम् कृसन्तम् इव चाकाशम् नादयन्तं वसुन्दरम् प्रणाशम् परसैन्यानाम् स्वसैन्यस्य प्रहर्षणम् रावणस्य रथं चोदयामास सारथी तम् आपतन्तं सनवन्तं महाध्वजम् रथं राक्षसराजस्य नरराजो ददर्शः कृष्णवाजि समायुक्तम् युक्तम् रौद्रेण वर्चसा दीप्यमानाम् विवाकाशी विमानम् सूर्यवर्चसं तडित्पदाकाशगनम् दर्शितेन्द्रायुधप्रहम् शरधारा विमुञ्चन्तं धाराधर्मम्बुदं स दृष्ट्वा मेघसङ्काशम् आपतन्तं रथं रिपो गिरिर्भज्राविमृष्टश्च वीर्यतसदृशस्वनम् विस्फोरयन् वैवेगेन बालचन्द्रानतं धनुः उवाच मातलिं रामय सहस्र क्षम्य सारथिम् वासले पश्य संरब्धम् आपतन्तं रथं रिपो यथापसव्यम् पतता वेगेन महता पुनः समरे हन्तुमात्मानम् तथा नेन कृता मतिः तत् अप्रमादम् आतिष्ठ प्रत्युद्गच्छ वायुर्मेघ निवोचितम् अविक्लवम् सम्भ्रान्तम् अव्यग्रह द्रुदये क्षणम् रक्श्मिसञ्चार नियतम् प्रचोदय रसन्द्रुतम् कमम् न त्वम् समाधेय पुरन्दर रथोचितः युयुत्सोऽहमेकाग्र स्मारये त्वां न शिक्षे परितुष्टः तेन वाक्येन मातलिः प्रचोदयामास रथम् सुरसारतिरुत्तमः अपशव्यम् तथा कुर्वन् रावणस्य महारथम् चक्रसम्भूत रजता व्यवधूनय तथा क्रुद्धो दश ग्रीव राम सायकै धूनयत् दर्शणा मर्षितो रामो दैर्यं रोषेण लम्भयन् जग्राह सुमहावेगम् ऐन्द्रम् योधि शरासनम् शनाश्च सुमहावेगम् सूर्यरश्मि समप्रभाम् तदुपोढम् महद्युद्धम् अन्योन्यवधकाङ्क्षिणो परस्पराभिमुखयो दृप्तयोरिवसिंहयोः ततो देवा सगन्धर्वा सिद्धाच च परमर्षयः समयूर्वैदरथम् द्रष्टुम् रावणक्षयकाङ्किणः समुत्पेतो रथोत्पाता दारुणा रोमहर्षण रावणस्य विनाशाय राघवस्योदयाय च भव च रुधिरम् देवो रावणश्च रथोपरि वार्तामण्डलिनस्तीव्रा व्यपसव्यम् पचक्रमुः मद्भृध्र कुलम् चास्य ब्रह्मणम् न येन येन रथो तेन तेन प्रधावति सन्ध्येया चावृता लङ्का चपापुष्प दृश्यते सम्पदीप्तेव दिवसेऽपि वसुन्धर स निर्घाता मोहल्काश्च सम्प्रेतुर्मः स्वर विषादयन्ते रक्षासि रावणस्य तदाहितः रावणश्च यतस्तत्र प्रचाल वसुन्धर च प्रहरताम् गृहीता इव बाहवः ताम्रा पीतासि पतिताः सूर्यरश्मयः दृश्यन्ते रावणास्याग्रे पर्वतस्यैव धातवः दृढ्युगताश्चास्य भवन्त्यो ज्वलनं प्रणे दुर्मुखनि सौरब्धम् न शिवम् शिवाय प्रतिकोलम् भवो वायु रणे पांशुन् समुत्किरन् तस्य राक्षसराजस्य कुर्वन् दृष्टि विलोपनं निपेतु इन्द्राशनयः सैन्ये चास्य समन्ततः दुर्विषयुः सर घोर्घोरा विना जलधरोदयं दिशश्च प्रतिशत् सर्व बभूस्मिति स्तिमिलावृता पासु वर्षेण महता दुर्दर्शं च नभोभवन् कुर्वत्यः कलहम् घोरम् सारिकास्तद्रथम् प्रति निपेतुशतशतत्र दारुणा दारुणारुतह जघनेभ्यः सुलिङ्गाश्च नित्येभुश्रूणि सन्ततम् मूचुतस्य तुर्गा तुल्यम् अग्निम् च वारि च भव समुत्पाता रावणस्य विनाशाय दारुणा सम्प्रजन्निरे रामस्यापि निमित्तानि सौम्यानि च शिवानि च बभूर्वजयशन्तीनि प्रादुर्भूतानि सर्वशः निमित्तानि ह सौम्यानि राघवे स्वजनाय वै दृष्ट्वा परमसंवृष्टो कतम्बेने च रावणम् ततो निरीक्षात्मगता निराघव रणे निमित्ता निमित्त कोविद जगामहर्षं च परम निवृत्तिं चकार युद्धे अधिकं च विक्रमम् इत्याशे श्रीमद् रामायणे वाल्मीकि अधिकवियुद्धकाण्डे षडधिकशततम सर्ग श्रीसीता रामचन्द्रार्पणमस्तु